एकपञ्चाशत्तमोऽध्याय सौतिरुवाच एवमुक्त्वा ततः श्रीमान्मन्त्रिभिश्चानुमोदितः आरुरोह प्रतिज्ञां सः सर्पसत्राय पार्थिव ब्रह्मन्भतशार्दूलो राजापारिक्षितस्तदा पुरोहितमथाहूय ऋत्विजो वसुधाधिप अब्रवीद्वाक्यसम्पन्नः कार्यसम्पत्करम् वचः यो मे हिंसितवां स्तातम् तक्षकः स दुरात्मवान् प्रतिकुर्याम् तथा तस्य तद्भवन्तो ब्रुवन्तु मे अपि तत्कर्म विदितम् भवताम् येन पन्नगम् तक्षकम् सम्प्रदीप्तेऽग्नौ प्रक्षिपेयम् स बान्धवम् यथा तेन दग्धो विषाग्निना तथाहमपि तम् पापम् दग्धुमिच्छामि पन्नगम् ऋत्विज ऊचुः अस्ति राजन्महत्सत्रम् त्वदर्थम् देवनिर्मितम् सर्पसत्रमिति ख्यातम् पुराणे परिपठ्यते आहर्ता तस्य सत्रस्य त्वन्नान्योऽस्ति इति पौराणिकाः प्राहुरस्माकम् चास्ति सक्रतुः एवमुक्तः स राजर्षिर्मेने दग्धम् हि तक्षकम् दीप्ते प्रविष्टमिति सत्तम ततोऽब्रवीन्मन्त्रविदस्तान् राजा ब्राह्मणांस्तदा आहरिष्यामि तत्सत्रम् सम्भाराः ततस्ते रुत्विजस्तस्य तम् देशम् मापयामासुर्यज्ञायतन कारणात् यथावद्वेद विद्वांसः सर्वे बुद्धेः परंगता। गताः ऋद्ध्या परमया युक्तमिष्टम् द्विजगणैर्युतम् प्रभूतधनधान्याढ्यम् ऋत्विग्भिः सुनिषेवितम् निर्माय चापि विधिवद्यज्ञायतनमीप्सितम् राजानम् दीक्षयामासुः सर्पसत्रातदा इदम् चासीत्तत्र पूर्वम् सर्पसत्रे भविष्यति निमित्तं महदुत्पन्नम् यज्ञविघ्नकरम् तदा यज्ञस्यायतने तस्मिन् क्रियमाणे वचोऽब्रवीत् स्थपितर्बुद्धिसम्पन्नो वास्तुविद्याविशारदः इत्यब्रवीत् सूत्रधारः पौराणिकस्तदा यस्मिन् देशे च काले च मापनेयम् प्रवर्तिता ब्राह्मणम् कारणं कृत्वा नायम् संस्थास्यते क्रतुः एतच्छ्रुत्वा तु राजासौ प्राग्दीक्षाकालमब्रवीत् क्षत्तारम् नहि मे इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वण सर्पसत्रोपक्रमेपंचाशत्तमोध्याय